पादपाठम् आहारुषन्त्वाविदन्त्वा पुनरागाः पुनर्नव सर्वाङ्गसर्पन्ते चक्षुः सर्वमायुश्चतेविदम् आहारुषन्त्वाविदन्त्वा पुनरागाः पुनर्नव सर्वाङ्गसर्पन्ते चक्षुः सर्वमायुश्चतेविदम् आहारुषन्त्वाविदन्त्वा पुनरागाः पुनर्नव सर्वाङ्गसर्पन्ते चक्षुः सर्वमायुश्च ते विदम्